श्रीमद्भागवत् महापुराणं दसंस्कन्धं अस संसीति तमोऽध्यायः सुभद्राहरण और भगवान का मिसलापुर मे राजा जनक और सुतदेव ब्राह्मण के घर एक ही साथ ज्ञानाम् राजवाच ब्रह्मन् वेदतुमिच्छाम स्वसारं रामकृष्णयोः यथोपये विजयो याममासीत् पितामही शेषु उवाच अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभो गदप्रभास शृणोन्मातुलेयिं स आत्मनः दुर्योधनाय रामस्तां दास्यति तेन चापरे तल्लिप्सु स याति भुत्वातिदण्डी द्वारकामगात् तत्र वै वार्षिकान्मासान्नमासी सर्वार्थसाधकः पौरे सभाजितोभिक्षं रामेण जानता च एकदा गृहमालीय आतिथ्येन निमन्त्रतं श्रद्धयोपसितं शैक्षं बलेन बुभुजे किल सोपश्यत्तत् महतिं कन्याम् वीरमनोहराम् प्रत्युत्फुल्ले क्षणस्तस्यां भावलुब्धं मनोदथे सापि तं च कमे वीक्ष्य नारीणां हृदयङ्गमं हसन्ति वीडितापाङ्गीं तन्यस्त हृदये क्षणां तां परं समनुध्यायन्नन्तरं प्रेप्सिरर्जुनः नलेभे सम्भ्रमत्य कामे नाति महत्यां देवयात्रायां रसस्थां दुर्गनिर्गतां जहाराणोमत पितृ कृष्णस्य च महारथ प्रसस्थों धनुरादाय सूराश्चारुन्धतो भटान् निद्राव्यक्रोशतां शानां सभागं मृगराडिव तच्छ्रुत्वा चुवितो राम परमलिव महा नमः गृहीतपादकृष्णेन सुहृद्भिश्चाण्म्यत प्राहिणोत पारिब्रह्म बर्हाळिं वरवध्वोर्मुदा बलः महाधनोपस्करे भर्थास्वनरं योषितः श्रीशोवाच कृष्णस्यासीद्विजश्रेष्ठ श्रुतेव इति कृष्णैकभक्त्या पूर्णार्थशान्तकविर्लम्पटः स उवास विदेहे सुमिथलायां गृहाश्रमे नरीहया गताहार्य निवर्तेत निजक्रियः यात्रामात्वं तर्हर हृदैवादुपन्नमद्युत नाधिकं तावता तुष्टक्रियाश्चक्रे यथोचिताः तथा तद्राष्टपालोऽङ्गबहुलास्वति श्रुतः मैथिलो निरहं मान उभावप्यच्युतप्रियौ तयो प्रसन्नो भगवान् दारुकेणार्तं रथम् आरुह्य साकं मनभिर्विदेहान् प्रयौ प्रभु नारदो वामदेवो कृष्णो रामो सितोरिणीः अहं बृहस्पतिः कण्णो मैत्रेयस्त्यवनादयः तत्र तत्र समायान्तं पौराजानपदानिप उपतस्तु शार्घहस्ताग्रहे सूर्यमिमोदितम् आनरतधन्म कुरुजाङ्गलकङ्कमस्य पाञ्चालकुन्ती मधुके कय कोशला नाः अन्ये च निग्ध्यैक्षणं नृपपुरुषिभिर्णि नार्यः तेभ्य स्ववीक्षणविनष्टतभिश्च दिग्भ्य क्षेमं त्रिलोकगुरुरथदृशं च यच्छन् शिन्वन्दिगन्तधवलं शयसोषु मग्नं गीतं सुरेणिभिरगाच्छन् कैर्विदेहान् ते च्युतं प्राप्तमाकर्ण पौराजानपदा अभिरुमुदितास्तस्मै गृहीतार्हणपालयः दृष्ट्वा स उत्तमश्लोकं प्रत्युत्फुल्लान्नाशयाः जयथिताञ्जलिर्भिर्देमू सुतपूर्वासथा मुरिन् सानुग्रहाय सम्प्राप्तं मन्मानौ तं जगद्गुरुं प्रभो न मन्त्रयेतां दासार्हाम् अतिथ्येन सद्विजैः मैथिलश्रुतदेवस्य युग्वसंहतां जने भगवान् तदभिप्रेत्य द्वयो प्रियचिकीर्षयाम् उभयोराविशद्गेहमुभाभ्यां तल्लक्षितः शोचमप्यसतां दूराञ्जनकस्वभृहागताम् आनीते स्वासनाग्रे गिरीशुकासीनान् महामनाः प्रविद्धभक्त्या उद्धरस हृदियाश्राविनेलः नत्वा तदग्रीन् प्रक्षाल्य तदपो लोकपावनिः सकुटुम्बो वहन्मृध्य पूजयाश्चक्रेश्वरान् गन्धमाल्याम्बराकल्प धूपदीपार्घ गोवृषये वाचा मधुर्यापीडन्निदं माहानर्तर्पितान् पादावङ्कगतौ विष्णो संस्कृतर्क्षणकैर्मुदा